मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं ट्वेण्टि वन् फाल्गुनकृष्णचतुर्थीवर्णनम् श्रीगणेशाय नमः दशरथ उवाच ब्रह्मन् श्रुत्वा च वैमाखि सङ्कष्ठीजं सुविस्मितः माहात्म्यं सर्वदं पुण्यम् सर्वसङ्कटकारकं फल्गुने कृष्णपक्षे या चतुर्थी सङ्कटीमता तस्याश्चरित्रमेवं मे कथयस्व कृपानिधे वसिष्ठ उवाच पौलस्त्यो रावणप्रोक्तस्तपस्तत्वा सुदारुणम् वरं लब्ध्वा त्रिलोकस्य राज्यं चक्रे महाबलः प्रधानेषु समाक्षिप्य राज्यं राक्षससत्तमः एकान्ते निर्जने गत्वा ध्यानसंस्थो बभूवः वेदोपनिषदिप्रोक्तं ब्रह्मवेदान्तपारकम् ध्यायति स्म विचारज्ञो ज्ञानयोगपरायणः एवं बहौ गदे पाले ज्ञानमुत्तमं तदा खेदसमायुक्तः सो स्मरन् तदशिवेन तत्रैव प्रेषितो नारदो मुनिः तम् दृष्ट्वा नारदं रक्षप्रणनाम कृताञ्जलिः प्रप्रखेदसंयुक्तो नारदं योगिनां वरं स्वामिन् ज्ञानप्रदं किञ्चिद्वदस्व करुणायुधः ज्ञानार्थं ध्याननिष्ठोऽहं नित्यं तिष्टामि चादराद नलेभे तन्महत् ज्ञानं किं करोमि महामुने नारद उवाच शिवेन प्रेषितोऽहं वै त्वदर्थं राक्षसोत्तम शृणुज्ञानप्रदं पूर्णं वाक्यं तत्कुरुसादरः चतुर्विधं जगद्ब्रह्मसङ्कष्टं सम्मदं बुधैः सन्नाशार्थं व्रतं मुख्यं सङ्गष्ठी संज्ञकं कुरु एवमुक्त्वा चतुर्ध्यास माहात्म्यं नारदोऽब्रवीद तच्छ्रुत्वा रावणस्थं समन्वितः। रावण उवाच कीदृशोऽयं गणाधीश्यस्तस्य ज्ञानं वद प्रभो यस्य व्रतं चतुर्णां च पदार्थानां प्रदायकं न कृतं तन्नाशकं नात्र संशयः सर्वादौ सम्मदं विप्रसर्वसिद्धिप्रदायकम् एवं पृष्ठो महायोगी नारदस्तमुवाचः हर्षेण महदायुक्तो रावणं लोकरावणं नारद उवाच महज्ञानं कथयितुं गणेशस्य न शक्यते उपाधिना वदिष्यामि राक्षसाधिपतच्छृणु गणसमूहरूपश्च समूहा ब्रह्मवाचकाः बाह्यान्तरादियोगेयं समूहो जायते यतः देहि देहमयं ब्रह्म गकाराक्षरवाचकं संयोगायोगरूपं मदं तयोर्योगे गणेशश्च स्वामी सर्वत्र सम्मदः विधानेन तदा शान्तिमवाप्स्यसि यवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरं रावणाय महायोगी विधियुक्तं तमब्रवीद यदि त्यजसि दैत्येन्द्र तदा भ्रंशमवाप्स्यसि अदो गणेशमन्त्रो नत्याज्यो त्याज्यो रक्षः कदाचन एवमुक्त्वा महातेज नारतोऽन्तर्दधे स्वयम् रावणस्य तदा प्राप्ता फाल्गुनी नृप सा कृदा तेन हर्षेण विधियुक्तेन कर्मणा व्रतपुण्यप्रभावेण स्फूर्तिप्राप्ता च तत्क्षणाद चकारस ततः शुक्लां कृष्णां वै राक्षसाधिपः जनान्विशेषेणाबोध्य सहतैर्गणप्रेरतः ततोज्ञानं समालब्धं रावणेन महात्मना ययौ स्वनगरे दैत्यै राज्यं चक्रे मदान्विदः दुष्टसङ्गतियोगेन क्रमेण ज्ञानमुत्तमं नष्टं तस्य सुदुष्टस्य स्त्रीमांसादि परो भवद अहं गणेशरूपश्च नान्यो जगदि न पापपुण्यभोक्तृत्वं कस्य पूजनमाचरे ततो ज्ञानमधेनैव मंद्र सुखप्रदः व्रतं त्यक्तमिदं पुण्यं पूजा त्यक्ता, त्यक्ता विशेषदः नष्टं ज्ञानं स्थितिर्नष्टा राक्षसो राक्षसो भवद धर्मलोपे रथोऽत्यन्तं चकार कर्मखण्डनं तेनैव दोषयुक्तो भूधतो दो रामेण तत्क्षणाद राक्षसै स्वजनैः सार्धं तव पुत्रेण धीमदा दशरथ उवाच असम्बन्ध्यश्च विप्रेष रावणश्च प्रवर्तते किमिदं भाषसे स्वामिन् गूढरूपं भ्रमप्रदम् वसिष्ठ उवाच कल्पे कल्पे स रामो वै तव पुत्रो भवत्प्रभुः जखान रावणं वीरो गाणपत्यबलान्विदः अन्यच्छृणुचरित्रं त्वं फाल्गुने सङ्गडीभवन् सर्वपापहरम् पूर्णं भुक्तिमुक्तिप्रदायकम् महाराष्ट्रे द्विष कश्चित् पापकर्मा बभूवः ब्राह्मणत्वं परित्यज्य चाण्डाल्यां निरदोऽभवत् चाण्डालैर्योनिसम्बन्धं पुत्रपुत्री समुद्भवम् चकारमन्दधीसोऽपि मध्यमांसपरायणः स कदाचिद्वने संस्थो जनान् हन्तुं समुद्यतः द्रव्यलोभी महापापी परस्त्री लालस्थोऽ भवद तत्र फाल्गुनमासे स चतुर्थी कृष्णगागदा संस्थित पर्वतद्रोण्यां बभूवब्राह्मणोधमः तत्र कश्चिन्नृपः सैन्यैश्चदुरङ्गैः समागतः तद्भयात्सोऽपि तत्रैव संस्थितोन्नजलैर्विना महत्सैन्यं नृपस्यैव मार्गे गमनकारकम् किञ्चिद्दिवसशेषे तत्सम्पूर्णगतमाभवत् ततः सोऽपि बहिर्वीक्ष्य निःसृतो भयवर्जितः जगामः चन्द्रोदये दुष्टः क्षुधातुरः बभक्षाण्डं स्वपुत्रैः स निजालये तत्र सर्पेण दष्टश्च ममारनृपदुर्मदिः ततो गणेशदूतैष नीतस्वानन्दके पुरे दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूवः अज्ञानव्रतपुण्येन विधिहीनेन भो नृपमुक्तश्चतुर्भिरेवंश किं पुनर्ज्ञानिनां परं एतादृशा महाभागा विधियुक्ता विधिं विना व्रतपुण्यप्रभावेण ब्रह्मभूदा बभूविरे तत्रैवं कतिदे भ्रूयां नालं वर्षायुतैरपि भवामि नृपमाहात्म्यं सङ्क्षेपेण निरूपितम् इदं फाल्गुनमासे या चतुर्थी कृष्णगामदा तस्याशृणोदिमाहात्म्यं पठेद्वा सर्वमालभेद ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्म उद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनकृष्णचतुर्थीवर्णनं नामैक विंशतितमोऽध्यायः ओम्